ण्डिकायै ॐ श्रीदुर्गायै नमः अथ सप्तश्लोकी दूरम् शिव उवाच देवित्वम् भक्तसुलभे सर्वकार्यविधायिनी कलौहि कार्यसिद्ध्यर्थम् उपायम् रूहि यत्नरहत् देव्युवाच शृणुदेव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम् मया तवैव स्नेहेनाप्यम् वा स्तुतिः प्रकाश्यते ओम् अस्य श्रीदुर्गासप्तश्लोकी स्तोत्रमन्त्रस्य नारायणऋषिः अनुष्टोच्छन्दः श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः श्रीदुर्गाप्रीत्यर्थम् सप्तश्लोकी दुर्गापाठे विनियोगः ओङ्गाणिनामपि चेतांसि देवी भगवती हि सा बलादाकृष्यमोहाय महामाया प्रयच्छति दुर्गे स्मृता हरसि भीतिमशेषजन्तो स्वस्थैः स्मृता मतिमतीव शुभाम् ददासि दारिद्र्यदुःखभयहारिणि कात्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु शरणागत दीनार्तपरित्राणपरायणे सर्वस्यार्तिहरे देवि नारायणि नमोस्तु ते सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते भयेभ्यस्त्राहिनो देवि दुर्गे देवि नमोस्तु ते रोगाणशेषानपहंसितुष्टा तु कामान् सकलानभीष्टान् माश्रितानाम् न विपन्नराणाम् त्वामाश्रिताख्याश्रयताम् प्रयान्ति सर्वा बाधा प्रशमनम् इति श्रीसप्त